सहस्राणि सहस्रशः सहस्रशो ये सहस्रश इति सहस्र शः ये रुद्राः रुद्रा अधि रुद्रा अधिभूम्याम् भूम्यामिति भूम्याम् तेषातुम् सहस्रयोजने सहस्रयोजने वा सहस्रयोजन इति सहस्र योजने अवधन्वानि धन्वानि तन्मसि तन्मसीति तन्मसि अस्मिन्महति तन्मसी, महत्यर्नवे अर्णवे एन्तरिक्षे अन्तरिक्षे भवाः भवा, भवा अधि अधीत्यधि नीलग्रेवा शितिकण्ठा आः नीलग्रेवा इति नील द्रेवाः शितिकण्ठा सर्वाः शितिकण्ठा इति शिते कण्ठा आह सर्वा अधः अधः क्षमाचराः क्षमाचरा इति क्षमाचराः भेलग्रेवा शितिकण्ठा आह भेलग्रेवा इति नील द्रेवाः शितिकण्ठादिवम् शितिकण्ठा रुद्राः रुद्रा उपश्रिताः उपश्रिता इत्युप श्रिताः ये वृक्षेषु वृक्षेषु सस्तिजराः सस्तिजरा नीलग्रीवाः नीलग्रीवा विलोहिताः नीलग्रीवा नीलग इति नीलग्रीवाः विलोहिता इति वि लोहिताः े भूताना भूतानामधिपतयः अधिपतयो विशिखासः अधिपतय इत्यधिपतयः विशिखासः कपर्दिनः विशिखास इति वि शिखासः कपर्दिन इति कपर्दिनः हे अन्नेषु अन्येषु विविध्यन्ते विविध्यन्ति पात्रेषु विविध्यन्तेति विध्यन्ति पात्रेषु पिबतः पिबतो जनान् जनानिति जनान् ये पथाम् पथाम् पथिरक्षयः पथिरक्षय ऐलभृदाः रि रक्षय इति पथि रक्षयः ऐलभृजा यव्युधः यव्युध इति यव्युधः ये तेर्थानि तेऽर्थानि प्रचरन्ति प्रचरन्ति सृकावन्तः प्रचरन्ति प्र चरन्ति सृकावन्तो सृकावन्त इति सृका वन्तः निषङ्गिन इति निसङ्गिनः य एतावन्तः एतावन्तश्च छूयागुंसः भूयागुंसश्च दिशः दिशो रुद्राः रुद्रावितस्थिरे वितस्थिर इति वि स्थिरे तेषागम् सहस्रयोजने सहस्रयोजने वा सहस्रयोजन इति सहस्र योजने अबधन्वानि धन्वानि तन्मसि तन्मसीति तन्मसि नमो रुद्रेभ्यः रुद्रेभ्यो ये पृथव्याम् पृथव्याम् ये येषेऽन्तरिक्षे अन्तरिक्षे ये ये दिवि ये, ये दिवि येषा शाम, आ येषामन्नम् अन्नम् वातः वातो वर्षम् वर्षमिषवः इषमस्तेभ्यः तेभ्यो दश दश प्राचेर्दश दश दक्षिणा दश दश प्रतीचीः प्रतीचेर्दश दशोदीचीः दशोर्द्वाः ऊर्ध्वा तेभ्यो नमः नमस्ते तेनः नो मृडयन्तु मृडयन्तु ते पेयम् ययन् विष्मः वैष्मो यः यश्च क्षणः नो द्वेष्टि द्वेष्टितम् तम्बः तं, भोजम्भे म्भे दधामि दधामेति दधामि सहस्राणि सहस्रशः सहस्रश